मुद्गलपुराणं खण्डवन् वक्रतुण्डचरितम् अध्यायं फिफ्टि फोर् वक्रतुण्डचरित्रसमाप्तिः श्रीगणेशाय नमः याज्ञवल्क्य उवाच तदोऽहं परमप्रीतस्तं प्रणम्यजनार्दनम् ताद तादयोगाभ्यासं समारभै क्रमेण पञ्चधावृत्तिं जित्वा चित्तस्य साधनैः गणपं शान्तियोगेन प्राप्तोऽहं तदनुग्रहाद। अदस्त्वं शरणं याहि वक्रतुण्डं विशेषदह। तेन ब्राह्मणसंवध्यो भविष्यसि न संशयः गायत्रीजपसम्भोधं श्रेयो देहि महामुने गजाननाय ना तेन त्वं विघ्नहीनो भविष्यसि विश्वस्मिन्मित्रभावं त्वं प्रकुरुष्व सदातनं विश्वामित्रश्च ते नाम तदा सार्धत्वमेष्यति मुद्गल उवाच इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः गणेशाय नमश्चेदि नाम मन्त्रं सदा जपन् तदा प्रभृति गायत्रीं विश्वामित्रः सधर्मविद त्यक्त्वाहङ्कारमत्यन्त मत्सरं च तथा जपत् गणेशार्पणभावेन गायत्रीं च जजापः तपस्ततापविप्रोऽसौ ध्यात्वा हृदि गजाननं गायत्री वेदमादेयं पिता प्रणव उच्यते स एव गणनाथोऽयमोङ्काराकृतिमस्ततः स गुणो गणराजोऽय मोङ्कार इति तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् तदस्वल्पेन कालेन ब्रह्मा लोकपितामहः विश्वामित्रं ययौ दक्षब्राह्मणत्वं ददौ परम् वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः विश्वामित्रो महातेजाब्राह्मणोऽयं प्रकीर्तितः सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः तथा गणेशभक् मुख्यो भूत्स पूजा प्रकारेण पूजया मासतं सून तुष्टाव सुस्तिरो भूत्वा यहा गजाननं विश्वाम उवाच नमस्ते गणनादाय विघ्नेशाय नमो नमः निर्गुनाय गुणानां च पदे वैदे नमो नमः नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर गजाकाराय देवाय गणेशाय नमो नमः गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पदे नमः अनादये च सततमादिपूज्याय ते नमः सर्वसिद्धिप्रदात्रे ते नाना माया धराय च मायिभ्यो मोहदात्रे वै तद्भीनाय नमो नमः बुद्धेः पदे नमस्तुभ्यं बुद्धिपञ्चकधारिणे मनोवाणीमयायैव तद्धीनाय नमो नमः सिंहारूढाय देवाय देवानां च पदे नमः देवदेवे सेव्याय नादि सिद्धायते ते नमः नमश्चदुर्भुजायैव मूषकध्वजधारिणे नमो मूषकवाहाय हे रम्भाय नमो नमः लम्बोदरनमस्तुभ्यं शूर्पकर्णाय ते नमः योगिनां कुलदेवाय योगिनां च पदे नमः एवं तस्मिन् संस्तुवधिप्रादुर्भूतो गजाननः अनन्दादित्यसङ्कास्यसिंहारूढो महोदरः तं दृष्ट्वा साश्रु नेत्रो महामुनिः पुलकाङ्गितसर्वाङ्गो भक्तिभावेन सम्प्लुतः तं दृष्ट्वा गणराजस्तु जगादमुनिसप्तमं त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेद यः पठेतृणुयाद्योऽपि समे मान्यो भविष्यति भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान् भक्तिभावेन सन्तुष्टस्तव योगीश्वराधुना मुद्गल उवाच गणेशवचनं श्रुत्वा सावधानो भवन्मुनिः तं प्रणम्य महाभक्त्या जगौ वै विश्वामित्र उवाच धन्यो वंशो मदीयोऽद्य धन्यं जन्मतपो धन्यौ मे जनकौ देवत्वदङ्घ्रियुगदर्शनाद किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो अदो भक्तिं त्वदीयां मे देहिनाद नाथ नमोऽस्तु दे गणपत्येषु मे देहि संवासं च गजानन अमुमेव वरं ब्रह्मन् मायामोहविनाशनं एवमस्त्विदितं प्रोच्य सौन्दर्धानं ययौ प्रभुहु विश्वामित्रस्तदारभ्य गणपत्यो बभूवः एवं नानावताराश्च वक्रतुण्डस्य धीमदः भक्तानाम् दादारो दानवानां विनाशकाः चरित्रमतिलं तेषां वक्त्रं नैव प्रकश्यते अधः सङ्क्षेपदो विद्धि कथितं सुखधानकं यदद्वैवक्रतुण्डस्य चरितं पापनाशनम् भुक्ति मुक्तिप्रदं पूर्णं कथितं ते प्रजापदे यशृणोदिनरो भक्त्या संस्रावयदियः पुमान् पडेध्यकृतकृत्य स भविधानात्र संशयः पुत्रपौत्रप्रदं चैव धनधान्यकरं परं विद्यायुष्यप्रदं दक्षचरितं कथितं परम् सहस्रमाकमासान् यः प्रयागे स्नादिमानवः वक्रतुण्डचरित्रस्य श्रवणेन च तत्फलम् आजन्ममरणान्तं आज यत् काशीवासं करोति च यथाविधि यथा श्रवणादस्य तत्फलम् इष्टापूर्तादिकम् यस्तु लक्षवारम् करोति च सम्पूर्णभावयुक्ता च श्रवणादस्य तत्फलम् यज्ञानाम् चैव साङ्गानाम् फलम् प्राप्नोति मानवः अस्य श्रवणमात्रेण सम्पूर्णम् तत्प्रजापते। बहुनात्र किमुक्ते न ब्रह्मभूयपदप्रदं श्रवणेन न सन्देहो जानीहि महामदे सुद उवाच यवमुक्त्वा महायोगी मुद्गलो विररामः महा। तदेतदखिलं त्यज्य मयापि कथितं मुने वक्रतुण्डस्य माहात्म्यं सङ्क्षेपेण च शौनकथितं ते मया विप्रभावं ज्ञात्वा विशेषदः श्रोतुमिच्छा पुनः किं ते वरुतदे मुनिसत्तम तवाकं सुप्रसादेन सन्तुष्टास्मिन् संशयः वक्रतुण्डस्य माहात्म्यं गुह्यं वेदरहस्यकम् गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः न श्रावयेद्दुर्जनेभ्यो गणेशद्विषते तथा पापकर्मभ्यये वेदं विषयिभ्यः कदाचन यदि तेषां पुरश्चेदं श्रावितं च महामुनि तदा कोपः प्रभविता वक्रतुण्डस्य निश्चितम् स च नादरमात्रेण दशपूर्वान् दशापरान् नरकं च श्रावयध प्रापयत्येष पूरुषान् अधः प्रयत्नेन श्रावयेद्य कोडिं कोटिं अदो अतो पृच्छको वक्तास्वस्वकोटिकुलोद्भवं पुरुषाणां समूहं स उद्धरेन्नात्र संशयः कलिकल्मषदाहाघ्नं वक्रतुण्डचरित्रकं कृतादिषु किमाश्चर्यं देह्येत्पापगणानिधि अहो कलौ सर्वदेवचरित्रकं गाणपत्यं विशेषेण गदितं च सदा भवेद इत्थं मुने चरित्रं ते वक्रतुण्डस्य भावतः कथितं तेन विप्रार्शे कृतकृत्योऽस्मि साम्प्रतं धन्योऽहं भवतां सङ्गाद्येन संस्मरणं कृतं गणेशस्य परेशस्य सभलोमे भवो भवत ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डचरित्रसमाप्तिर्नाम चदु पंचा श्री पंचाश्तमी गजानना श्री मुद्दुराणे प्रथम खंड स